षट्षष्टितमोऽध्यायः दुर्योधन उवाच एहि क्षत्तर्द्रौपदीमानयस्व प्रियां भार्यां सम्मतां पाण्डवानां सम्मार्जतां वेश्मपरयतु शीघ्रं तत्रास्तु दासीभिरपुण्यशीला विदुर उवाच दुर्विभाषम्भाषितं त्वादृशेन न मन्दसम्बुध्यसि पाशबद्धः प्रपाते लम्बमानो न वेत्सि व्याघ्रान्मृगः कोपयसेति वेलम् आसीविषास्थे शिरसि पूर्णकोपा महाविषाः माकोऽपिष्ठासु मन्दात्मन् मागमस्त्वम् यमक्षयम् न हि दासीत्वमापन्ना कृष्णा भवितुमर्हति अनीसेन हि राज्ञैषा पणेन्यस्तेति मे मतिः अयम् धत्ते वेणुरिवात्मघाति फलम् राजा धृतराष्ट्रस्य पुत्रः जूतम् हि वैराय महाभयाय मत्तो न बुध्यत्ययमन्तकालम् नारुन्तुदस्यान्नृशंसवादीन हीनतः परमभ्यादधीत ययास्य वाचा पर उद्विजेत न ताम् वदे दुषतीम् पापलोक्याम् समुच्चरन्त्यतिवादाश्च वक्त्रात् यैराहतः सोचति रात्यहानी परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत्परेषु अजो हि शस्त्रमखिलत्किलैकः शस्त्रे विपन्ने शिरसास्य भूमौ निकृन्तनम् स्वस्य कण्ठस्य घोरम् तद्वद्वैरम् माकृताः पाण्डुपुत्रैः न किञ्चिदित्थम् प्रवदन्ति पार्था वनेचरं वा गृहमेधिनम् वा तपस्विनम् वा परिपूर्णविद्यम् भषन्ति हैवम् स्वनराः सदैव द्वारम् सुघोरम् नरकस्य जिह्मम् न धृतराष्ट्रस्य पुत्रः तमन्वेतारो बहवः कुरूणाम् द्यूतोदये सः प्लवन्ते मुह्यन्ति नावोऽम्भसि मूढो राजा धृतराष्ट्रस्य पुत्रो नमे वाचह वाचः पथ्यरूपाः अन्तो नूनम् भविदायं कुरूणाम् सुदारुणः सर्वहरो विनाशः वाचः काव्याः सुहृदाम् पथ्यरूपा न वर्धते लोभ एव इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि विदुरवाक्ये षट्षष्टितमोऽध्यायः